श्रीहरये नमः अथ पञ्चमोऽध्यायः नारद उवाच देवदेवनमस्तेऽस्तु बोधभावनपूर्वजां तद्विजानीहि यज्ञानम् आत्मतत्त्वनिदर्शनं यद्रूपं यदधिष्ठानं यतसृष्टमिदं प्रभो यत्संस्थं यत्परं यच्च तत्तत्त्वं वद तत्त्वतः सर्वं ह्येतद्भवान् वेदभूतभव्यभवत्प्रभुः करामलकवद्विश्वम् विज्ञानावसितं तवा यत् विज्ञानो यदाधारो यत्परस्त्वं यदात्मकः एकसृजसि भूतानि भूतैरेवात्ममायया आत्मन् भावय सेतानि न आत्मशक्तिमवष्टभ्य ऊर्णनाभिरिवाक्लमः ना नाहं वेद परं ह्यस्मिन्नापरं न समं विभो नामरूपगुणैर्भाव्यं सतसत् किञ्चिदन्यतः स ेदयसेनस्त्वं पराशङ्कां प्रयश्चसि ये तन्मे पृच्छतः सर्वं सर्वज्ञः सकलेश्वरा विजानीहि अथैवेधम् अहं बुद्ध्यनुशासितः ब्रह्मोवाचां सम्यक् वत्सते विचिकित्सितं यदहं चोदितत् भगवद्वीर्यदर्शने नानृतं तव तच्छामि यथा मां प्रभ्रवीक्षि भोः अविज्ञाय परं मत्थ एतावत्त्वं यतोहि मे येन स्व रोचिषा विश्वं रोचितं रोचयाम्यहं यथा कोऽग्निर्यथा सोमो यथर्षग्रहतारकाः तस्मै नमो भगवते वासुदेवाय धीमहि यन्माय या दुर्जय या मां स्थातुमीक्षापते मुयां विमोहिता कथन्ते ममाहमिति धुर्धियः द्रव्यं कर्मश्च कालश्च स्वभावो जीव वासुदेवात् परो ब्रह्मन्न चान्योर्थतोऽस्ति तत्त्वतः नारायणपरा वेदा देवा नारायणाङ्गजाः नारायणपरालोका नारायणपरामखाः परो योग नारायणपरं तपः नारायणपरज्ञानं नारायणपरा गतिः तस्याभि्रष्टुरीसस्य कूटस्थस्याखिलात्मनः सृज्यं सृज्यामि सृष्टोह मीक्षयैवाभिचोदितः सत्वं रजस्तर्गुणस्य गुणास्त्रयः स्थितिसर्गनिरोधेषु गृहीतामायया विभोः कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रयाः पद्मन्दिनित्यधामुक्तं मायिनं पुरुषं गुणाः स एष भगवान् लिङ्गैस्त्रिभिरेभिः अधोक्षजः स्वलक्षिधगतिर्ब्रह्मन् सर्वेषां कालं कर्म स्वभावं च मायसोमायया स्वयाम् आत्मन्यदृश्चया प्राप्तं विभुभूषुरुपादधे कालाद्गुणव्यधिकरपरिणामः स्वभावतः कर्मणो जन्म महतः पुरुषाधिष्ठिदाद् अभूत् महतस्तु विगुर्वाणात् रजः सत्त्वो बभृं हितात् तमःप्रधानस्त्वभवद्द्रव्यज्ञानाक्रियात्मकः सोऽहङ्कार इति प्रोक्तो विकुर्वन् वैकारिकस्तैजसश्च तामसश्चेति यद्भित् द्रव्यशक्तिक्रियाशक्तिर्ज्ञानशक्तिरिति प्रभो तामसादभिभूताधेर्विकुर्वाणा तभून्नभः तस्य मात्रा गुणः शब्दो लिङ्गं यद् द्रष्ट्रुधृष्ययोः नभसोऽत विगुर्वाणा तभोपर् सगुणो निलः परान्वयात् सब्दवांश्च प्राणवोजक्सहो बलं वायोरपि विकुर्वाणात् कालकर्मस्वभावतः उदबद्यद तेजो वै रूपवत्स्पर्श सब्धवत् तेजसस्तु वि कुर्वाणात् आसीदम्भो रसात्मकं रूपवत्स्पर्शवच्चाम्भो घोषवच्च परान्वयात् विशेषस्तु वि कुर्वाणात् अम्बसो गन्धवानभूत् परान्वयाद्रसस्पर्श शब्दरूपगुणान्वितः वैकारिकान्मनो जज्ञे देवा वैकारिकादशा दिक्वातार्कप्रतेचोऽस्मि वग्नीन्द्रोपेन्द्रमित्रकाः तैजसास्तु वि इन्द्रियाणि दशाभवन् ज्ञानशक्तिक्रियाशक्तिर्बुद्धिः प्राणश्च तैजसौ श्रोत्रं त्वक् कारणदृक्जिह्वा वाग्दोर्मेढ्राङ्घ्रिभायवः यथैते सङ्गताभाव भूतेन्द्रियमनोगुणाः यदा यतननिर्माणे नशे कुर्ब्रह्मवित्तमः सधसत्त्वमुय शोभयम् शश्रुजुर्ह्यधः वर्षभोग सहस्रान्ते तदण्डमुद केशयम् कालकर्म स्वभावस्थो जीवो जीवमजीवयथ स एव पुरुषस्तस्मादण्डम् निर्भिद्य निर्गतः सहस्रोर्वङ्घ्रिबाह्वाक्ष सहस्रानन शीर्षवान् यस्ये कल्पयन्ति मणिक्षिणः कट्यादिभिरथक्सप्त सप्तोर्ध्वं जगनादिभिः पुरुषस्य मुखं ब्रह्म क्षत्रमेधस्य भाहवः ऊर्धोर्वैश्यो भगवतः पद्यां शूद्रोऽजायत भूर्लोककल्पितः पद्यां भुवर्लोकोऽस्य नाभितः हृदा स्वर्लोकपुरसा महर्लोको महात्मनः ग्रीवायां जनलोकश्च तपोलोकस्तनद्वयात् मूर्धभिसत्यलोकस्तो ब्रह्मलोकसनातनः तत्कट्यां चातलं क्लृप्त मूरुभ्यां वितलं विभोः जानुभ्यां सुतलं शुद्धं जङ्गाभ्यां तु तलातलं महातलं तु कुल्भाभ्याम् प्रबधाभ्यां रसातलं पादालं पादतलथ इति लोकमयः पुमान् भूर्लोकल्पितः स्वर्लोककल्पितो मूर्ध्ना इति वा इति श्रीमद्भगवते महापुराणे द्वितीयस्कन्ते पञ्चमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा सद्गुरु के जय